श्रीहरये नमः अतत्रयो त्रयोदशोऽध्यायः श्रीशुक उवाच वृत्रेहते त्रयो लोकाविनाशक्रेण भूरिधा सफालाह्य भवेन् सद्यो विज्वरा निर्वृधेन्द्रियाः देवर्षि पितृभूतानि दैत्या देवानुगा स्वयं प्रदि जग्मुस्वदिष्ण्याणि ब्रह्मेशेन्द्राधयस्ततः राजोवाच इन्द्रियस्या निर्वृतिर्हेतुं श्रोतुमिच्छामि भो मुने येनासंसुखिनो देव हरेर्दुःखं कुतोभवत् श्रीशुकौ वाचा वृत्रविक्रमसंविघ्ना सर्वदेवासहर्षिभिः तद्वधायार्तयन्निन्द्रं नैचद्भीतो बृहद्वधाद इन्द्रौ वाचा श्रीभूजलद्रुमैरेनो विश्वरूप वधोद्भवम् विभक्तमनुगृह्णद्भिः वृद्रहत्यां क्वमार्ज्म्यहम् श्रीसुख वाचां ऋषयस्तदुपाकर्ण्य महेन्द्रमितमब्रुवन् याजयिष्यामभद्रं ते हयमेदनमास्म भे हयमेदनपुरुषं परमात्मानमीश्वरम् इष्ट्वा नारायणं देवं मोक्षसेऽपि जगद्वदत् ब्रह्म का पितृहा गोज्ञो मातृहाचार्यः गवान् स्वाधः पुल्कसको कीर्तनात् तमस्वमेधेन मकामकेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन हत्वा विसभ्रं कचराचरं त्वं न लिप्यसेके कलनिग्रहेण एवं सञ्चोदितो विप्रैर्मरुत्वानहनदृपं ब्रह्महत्याहते तस्मिन् नाससादवृषाकपिं तयेन्द्रस्मादहत्तापं निर्वृतिर्ना मुमाविशत् ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ऊतां तदर्शानु धावी चाण्डालीमिव रूपिणी जरया वेपमानाङ्गीं यक्ष्मग्रस्ताम् अश्रुक् पठां विकीर्यपलितान् केषान् स्तिष्ठ तिष्ठेति नभोगतो भो गतो दिशः सर्वा सहस्राक्षो वि साम्पते भ्रागुतीचिन् दिशम् तूर्णम् प्रविष्टो नपमानसम् स आवसत् अलब्धभोगो यदिहाग्निधूतः वर्षाणि साहस्रमलक्षितोऽन्ध सचिन्तयन् चिन्तयन् ब्रह्म वधात् वि मोक्षं तावत् त्रिणाकन्दकुशससा विद्या तपो योगबलानुभावः स ततो गतो ब्रह्मगिरोपहूत् ऋतं भरयाननिवारितागः पापस्तु दिग्देवतया हतौ जा तं नाभ्यभूतवितं विष्णुपत्न्या तं च ब्रह्मर्षयोभ्येत्य हयमेदेन भारत यातवद्दीक्षाञ्चक्रो पुरुष आराधने नः अत्यज्यमाने पुरुषे सर्वदेवमयात्मनि अश्वमेधे महेन्द्रेण वितते ब्रह्मबादिभिः स वैत्वाष्ट्रवथो भूयानपि पापचयो नृपं नीतस्तेनैव शून्याय नीहार वितायमानेन मरीचिमिश्रे इष्ट्वाति यज्ञं पुरुषं पुराणम् इन्द्रो महानासविधूतपापः इतं महाख्यानं अशेषपाप्मनां प्रक्षालनं तीर्थपधानुकीर्तनम् भक्त्युश्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुद्वतः पठेयु आख्यानमिधं सदा भूताः शृण्वन्त्यतो पर्वणि पर्वणीन्द्रियं धन्यं यशस्यं निखिलागमोचनं रिभुञ्जयं स्वस्त्ययनं तदायुषम् इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते इन्द्रविजयो नाम त्रयोदशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज जय